श्री सुब्रह्मण्य भुजङ्गस्तोत्रम् वै आदिशङ्कर सदा बालरूपापि विज्ञात्रि हन्त्री महादन्तिवक्त्रापि पञ्चास्यमान्या विधीन्द्रादिमृग्या गणेशाभिधामे विदत्ताम् श्रियम् कापि कल्याणमु न जानामि शब्दम् न जानामि चार्तम् न जानामि पद्यम् न जानामि गद्यम् चिदेका षडास्य हृदि मयूराधिरूढम् महावाक्यगूढम् मनोहारिदेहम् महच्चित्तगेहम् महीदेवदेवम् महाभेधभावम् महादेवबालम् भजे लोकपालम् यदा सन्निदानम् गता मानवामे भवाम्बोधिपारम् गदास्ते तदैव इति व्यञ्जयन् आस्ते तमीटे पवित्रम् पराशक्तिपुत्रम् यताब्दे तरङ्गालयम् यान्ति दुङ्ग ततैवापदः सन्निधौ सेवताम् मे इतीवोर्मिपङ्क्तिर्नृणाम् दर्शयन्तम् सता पर्वते राजते देतिरूढाः इतीव ब्रुवन् गन्धशैलादिरूढाः स देवो मुदे मे सदा षण्मुखोऽस्तु महाम्बोदितीरे महापापचोरे मुनीन्द्रानुकूले सुगन्धाख्यशैले गुहायाम् वसन्तम् स्वभासालसन्तम् जनार्तिम् हरन्तम् श्रयामो गुहन्तम् लसत्स्वर्णगे हे कामदोहे सुमस्तोमसञ्चन्न माणिक्यमञ्चे समुद्य सहस्रार्क तुल्यप्रकाशम् सदा भावये कार्तिकेयम् सुरेशम् रणत्तम् सके मञ्जुलेऽत्यन्तशोणे मनोहारिलावण्य पीयूषपूर्णे मन पदों मे भवेश तोदतातेदपद् सुवर्णादिव्यांबरवासम कणत्णी मे कलाशोभ लसत्ते मपट्टेन विद्योतमानाम् कटिम्भावये स्कन्दते तीव्रमाना पुलिन्देशकन्यागनाभोगतुङ्गनालिङ्गनासक्तकाश्मीररागम् नमस्याम् यहम् तारकारे तवोरः स्वभक्तावने सर्वदा सानुरागम् विदौ क्लिप्तदण्डान् स्वलीलादृताण्डान् निरस्ते भषुण्डान् द्विषत्कालदण्डान् हतेन्द्रारिषण्डान् जगत्राणशौण्डान् सदा ते प्रचण्डान् श्रये बाहुदण्डान् सदा शारदाषण्मृगङ्कायति स्युः समुद्यन्त एव स्थिताश्चेत् समन्तात् सदा पूर्णबिम्बाकलङ्कैश्च हीनाः तथा त्वन्मुखानाम् ब्रुवे स्कन्दसाम्यम् पुरन्मन्दहासै स हंसानि चञ्चत् कटाक्षवलीभृङ्गसङ्गोज्ज्वलानि सुदास्यन्ति बिम्बादराणि शसूनो तवालोकये षण्मुकाम्भोरुहाणि दयास्यन्दिषु द्वादशस्वीक्षणेषु मयीषत्कटाक्षः सकृत्पादितश्चेत् भवेत्ते दयाशीलकानाम् हानिः सुदाङ्गोद्भवो जपन्मन्त्रमीशो मुदा जिग्रतेयान् जगद्भारभृत्यो जगन्नाततेभ्यः किरीटो ज्वलेभ्यो नमो मस्तकेभ्यः स्फुरत्नकेयूरहाराभिरामः चलत् कुण्डलश्रीलसद्घण्डबागः कटौ पीतवासकरे चारुशक्तिः इहायाहिवत्सेतिहस्तान्प्रसार्या, पुरारेस्तनूज समुत्पद्यता तम् श्रयन्तम् कुमारम् हराश्लिष्टगात्रम् भजे भालमूर्तिम् कुमारेश सूनो गुहस्कन्दसेना पते शक्तिपाणे मयूराधिरूढ पुलिन्दात्मजाकान्तभक्तार्तिहारिन् प्रभोताे सदा रक्ष प्रशाते नज्ञे विचे कपोदगारि वक् भयत्कंपी गात्रे प्रयाणोन्मुखे मय्यनादे तदानिम् दृतम् मे भवाग्रे गुहम् त्वम् कृतान्तस्य दूतेषु चण्डेषु कोपाद् दहच्चिन्दिबिन्दीति माम् तर्जयत्सु मयूरम् समारुह्यमा भैरिति त्वम् णिर्ममा शीघ्रम् प्रणम्या सकृत्पादयोस्ते पतित्वा प्रसाद्य प्रभो प्रार्थयेनेकवारम् न क्षमोहं क्षमोऽहम् तदानिम् कृपाब्धे न कार्यान्तकाले ुपेक्षा सहस्राण्डभोक्ता सूरनामा अतस्तारक सिंहवक्त्रश्च दैत्यः ममान्तर्हृतिस्तम् मन अहं सर्वदा दुःखभारावसन्नो भवान् दीनबन्धुस्त्वधन्यम् नयाचे याचे भवत् भक्तिरोदम् सदा क्लिप्तभादम् नाशयो मा अपस्मारकुष्टक्षयार्षः प्रमेह ज्वरोन्मादगुल्मादिरोगा महान्तः पिशाचस्य सर्वे भवत्पत्रभूतिम् विलोक्यक्षणात्तारकारे द्रवन्ते तृषिस्कन्दमूर्तिश्रुतौ स्कन्दकीर्तिः मुखे मे पवित्रम् सदा तच्चरित्रम् करेतस्य कृत्यम् वपुस्तस्य भृत्यम् गुहे सन्तुलीना ममाशेषभावा मुनीनामुताहो नृणाम् भक्ति भाजाम् अभीष्टप्रदासन्ति सर्वत्र देवाः नृणामन्त्यजानामपि स्वार्थदाने गुहात्तैव मन्यम् न जाने न जाने कळत्रम् सुता बन्धुवर्गः नरो वातनारी गृहे ये मदीया यजन्तो नमन्तस्तुवन्तो भवन्तम् स्मरन्तश्च ते सन्तु सर्वे कुमारा। मृगापक्षिणोद्दंशकाये सकाये दुष्टाः तता व्याधयो बाधकाये मतंगे, भवश्चक्तितीक्ष्णाघ्रभिन्ना सुदूरे विनश्यन्तु ते चूर्णितक्रौञ्चशैले जनित्री पिता सहेतेन किम् देवसेनाधिनात अहम् चातिबालो भवान् लोकतातः क्षमस्वापराधम् समस्तम् महेश नमः केकिने शक्तये चापिथुभ्यम् नमच्चागुभ्यम् नमः कुटाय नमःसिन्धवे सिन्धु देशाय तुभ्यम् पुनस्कन्दमूर्ते नमस्ते नमोऽस्तु जयानन्दभूमन् जयापारदामन् जयामोघकीर्ते जयानन्दमूर्ते जयानन्दसिन्धो जयाशेषबन्धो जय त्वम् सदा मुक्तिदानेश सूनु भुजङ्गाक्यवृत्तेन क्लिप्तम् स्तवं यः पटेद्भक्तियुक्तो धनम् दीर्घमायुः लभेत् स्कन्दसायुज्यमन्ते नरसः सुब्रह्मण्यभुजङ्गस्तोत्रम् सम्पूर्णम् सम्पूर्णम्